हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे तृतीयस्कन्धे त्रयोविंशोऽध्यायः व्यास उवाच तस्मै गौरवभोजानि विधाय विधिवत्तदा वासराणि च षड्राजा भोजयामास भक्तितः एवं विवाहकार्याणि कृत्वा सर्वाणि पार्थिवहे बार्ह्यबरहं पदत्वा स मन्त्रयन् सचिवैसे दुस्त श्रुत्वा मार्गसंरोधनं कृतम् बभूव विमला राजा सुबहूमितद्युति सुदर्शनस्तोवाच श्वशुरं संशित व्रतः अस्मान् विसर्जय श्रूत्रम् गमिष्यामोह्य शङ्कितः भारद्वाजा समं पुण्यं गत्वा तत्र समाहितः निवासाय विचारो वै कर्तव्य सर्वथा नृप नृपेभ्यश्च न कर्तव्यं भय किञ्चित् जगन्माता भवानी मे साहाय्यं वै करिष्यति तस्येति मतमाज्ञाय जामातु नृपदत्तमः विसर्ज धनं दत्त्वा प्रतस्थे सोऽपि सत्वरः फलेन महता वयनो नृपोत्तम सुदर्शनो वृत त्र चांदे पथिर्भय रिवृत शूर सारूरथ संस्थित कछंद दर्श सैन्युपाण रघुनंदन है चिंताभष्टो बभूव गृहवत् शिवाम चित्ते जगा शरण मुदा जया पैकाश मंत्र कामराज निर्भयोवीतशोकस्य पत्न्या सहोढया ततः सर्वे मयि पाला कृत्वा कोलाहलम् तदा उत्थिता सर्वसन्यसंयुक्ता हन्तुकामा सुकन्यकाम् काशीराजस्तु तान् दृष्ट्वा हन्तुकामो बभूवः निवारितस्तदात्यर्थम् राघवेण जिगीषिता तत्रापि नेतुशङ्का च भीर्यचारकदन्धुभिः नृपरा जिघंसता शत्रजि तो सुसिघस युदाजि तत्म सन्नद्ध प्रबूव कैचिच प्रेक्ष का स्थित तथा युदाजी दौरा सुदर्शन मुपस्थित श्रुजि तेन सहित हंस भरातर्माज परस्परं ते बाणोहै ततक्षु क्रोधमूर्छितः सम्मर्द सुमान् तत्र सम्प्रवृत्त सुमार्गणैः काशी पति सदा तूर्णम् न बहुनावृतः साहाय्यार्थम् जगामाशु जामातरमनिन्दितम् एवम् प्रवृत्ते सङ्ग्रामे दारुणे लो महर्षणे प्रादुर्बभूव देवी सिंहोपरि स्थिता भूषणभूषिता दिव्याम्बर परिधाना तां दृष्ट्वा ते स भोपालाभिस्मयम् परमं गतः केयं सिंहासनारूढा कुतो वेति समुत्थिता सुदर्शन सुतां वीक्ष्य सुबाहुम् इति चाब्रवीत् पश्य राजन्भा देवीम् अनुग्रहाय मे नूनम् प्रादुर्भूतादयान्विता निर्भयोऽहम् महाराज जातोऽस्मि निर्भयादपि सुदर्शन सुबाहुश्च तम् लोक्येव प्रणामम् चतुर्तस्यामुदितो दर्शनेन च ननाद च तदा सिंहो गज श्रेस्ताश्चकम् गिरे गोर्वाता महाघोरादिश सन् सुदारुणा सुदर्शन तदा प्राह निजम् मार्गे व्रज त्वं तरस भूपाला यत्र संस्थिताः किं करिष्यन्ति राजा न कुपिता दुष्टचेतस शरणार्थञ्च सम्प्राप्ता देवी भगवती हिनः निरान्तङ्कैश्च गन्तव्यम् मार्गस्मिन् भूपसङ्कुले स्मृता मया महादेवी रक्षणार्थमुपागता तत्स्रुत्वम् तच्छ्रुत्वा वचनं सेनापति तेन से पथावृजत् युधाजित्तु सुसंक्रुद्ध तानुवाच महीपतिम् किं स्थिता भय संस्कृता निघ्नन्तु कन्यकान्वितम् अवमन्य च न सर्वान् बलहीन बलाधिकान् कन्यां गृहीत्वा संयाति निर्भयस्तरशिशु किम् भीताकामिवीक्ष्य सिंहोपरी सुसंस्थिताम् नोपेक्षो हि महाभाग हन्तव्योत्र समाहिते हत्वम् सङ्ग्रहीष्याम कन्यां चारु विभूषणां नायम् केसरिणा दत्तां चेत्तुमर्हति चम्बुकः इत्युक्त्वा सन्न संयुक्त चतुर्जी सहितस्तदा यद्धुगाम सुसम्प्राप्तो युधावृतः ममोच विशिखान्तूर्णम् समकुङ्खाञ्चलाञ्चितान् धनुराकृशकर्णान्तर्जिताम्परि सुदर्शन सुपादतः क्षणात् एवं युद्धे प्रवृत्तेथ च कोप चण्डिका भुजम् दुर्गादेवी मोचाथ बाणान् युधाजितं प्रति नानारूपदाता नाना ना शस्त्रधरा मलं तत्र जगदंबिका शत्रु तुझा पार्थिव पतिभ्या जय शब्द सदा विस्मं परूपोक निधनम मतुला भागिने भागिने य संयुगे सुबाह निधन संयुगे तय तुष्टावय परमाप्रीतो दुर्गां दुर्गति नाशिनीं सुबाहुवाच नमो देवे जगद्धात्रे शिवायै सततं नमः दुर्गायै भगवत्यै ते कामदायै नमो नमः नमः शिवायै शान्त्यैते विद्यायै मोक्षदे नमः विश्वव्याप्त्यै जगन्मात जगद्धात्रे नमो नमः शिवे नाहं तव धिया परिचिन्तयन् वै जानामि देवि स गुण निर्गुणाय किं सौमि विश्वजननीं प्रकटप्रभाव भक्तातिनाशनपराम्बरमां च शक्तिम् वाग्देवता समसि सर्वगतैव वा बुद्धि विद्यामतिश्च गतिरप्यसिव सर्वजन्तौ त्वां सौमि दमसि सर्वमनो नियन्त्रे किं हि सततं ब्रह्मा हरचरिरप्यनिशंसुवन्तो नास् गताय सुरवराय किल ते गुणानां वाहं विभेदमतिरम्बे गुणैर्वृतो वै वक्तुम् क्षमस्तव चरित्रमहो प्रसिद्ध तत्सङ्गति कथमहो न करोति कामम् प्रासङ्गिकापि विहिताय खलु चित्तशुद्धि सा मातुरस्य समागमेन प्राप्तं मया धृतमिदं तव दर्शनं वै ब्रह्मापि वाञ्छत सदैव हरोहरि च सेन्द्रासुराश्च मुनयो विदिता कृतत्वा यद्दर्शनं जनति तेद्य मया दुरापम् प्राप्तं विना दमशमादिसमाधिभिः च वाहं सुमन्दमतिरायेषु तवावलोकम् वेदम् भवामि भवभेजशम् ज्ञातासि देवि सततं किल भावयुक्ता भक्तानुकम् परपरामरवर्गपूज्या किं वर्णयामि तव देवि चरित्रमेतत् यद्रक्षितोऽस्ति विच मेत्र सुदर्शनोऽयं शत्रु हतौ सुबलिनौ तत्स त्वयाद्य भक्तानुकम् विचरितं बरमम् पवित्रम् नाश्चर्यमेतदिति देवि विचारिते म्पासि सर्वमखिलं सितजङ्गमं वै त्रासत्वया न विनिहत्य श्रीपूर्दयात् संरक्षितोऽयमधुना ध्रुवसन्धिसूरौ भक्तश्च सेवनपरे स्वयशोधिदीप्तये कर्तुम् भव चरितं त एतत् नो चेत् युद्धे भवेत् कुशलनवानवद्यक्षिरा शक्तासीजन्मरणादिभयान् विहन्तुम् किञ्चित्रमात्र किल विभक्तजनस्य कामम् तं गीयते जननि भक्तजनैरपारा तम् पापपुण्यरहिता सु गुणा गुणा च तद्दर्शनादहमहो सुकृतीकृताथो दातोऽस्मि देवि भुवनेश्वरि धन्यजन्मा बीजम् न तेन भजनम् किल ज्ञात स्वाद्य महिमा प्रकटप्रभावं सुता तदा देवी प्रसन्न वदनाशिव उवाच तं नृपं देवी वरम्बरय सुव्रत इति श्रीमद्देवी भगवते महापुराणे अष्टादशसहस्रां संहितायां तृतीयस्कन्धे सुबाहूगतदेवी स्तुति वर्णनं नाम त्रयोविंशोऽध्याय श्रीजगदम्बिकायार्पणमास्तु